अश्वमेधेऽहयम् मेध्यमुत्सृष्टम् रक्षिभिर्वृतम् पितुर्मे यज्ञविघ्नार्थमहरत् पापनिश्चयः सौवीरान्प्रति याताम् च बभ्रो रेष तपस्विनः भार्यामभ्यहरन् मोहादकामाम् तामितो गताम् येशमाया मायाप्रतिच्छन्नः करूषार्थे तपस्विनीम् जहार भद्राम् मातुलस्य दृशं सकृत् पितृष्वसुः कृते दुःखम् सुमहन्मर्शयाम्यहम् दिष्ट्याहीदम् सर्वराज्ञाम् सन्निधावद्य वर्तते पश्यन्ति हि भवन्तोऽद्यमय्यतीव कृतानि तु परोक्षम् तानि निबोधत इमम् त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम् अवलेपाद्वधार्हस्य समग्रे राजमण्डले रुक्मिण्यामस्य मूढस्य प्रार्थनासीन्मुमूर्षतः न प्राप्तवान् मूढः शूद्रो वेद श्रुतिमिव वैशंपायन उवाच एवमादिततः सर्वे सहितास्ते न राधिपाः वासुदेववचः श्रुत्वा चेदि राजम् व्यगर्हयन् तस्य तद्वचनम् श्रुत्वा शिशुपालः प्रतापवान् जहासस्वनवद्धासम् वाक्यम् चेदमुवाचः मत्पूर्वाम् रुक्मिणीम् कृष्ण संसत्सु परिकीर्तयन् विशेषतः पार्थिवेषु व्रीडाम् नः कुरुषे कथम्